सर्वान्वायशोग्नो कामान् प्रवेशयति यो वाधाय व्रतमुपैते सेदनष्ट्वा प्रयायात् अकामप्रेतादेन कामानानुप्रयायोः प्रदेशात् सजुयात् अभ्यन्ताङ्गिनस्तमा विश्वासुक्षितगः पृथक् अग्ने कामाय कामानेवास्मिन् दधाते कामप्रेतायेन कामानुप्रयान्ते तेजस्मैवेद्यावान् भवते सन्तदर्वा एषा यज्ञस्य यो ज्ञेन व्रतमुपैदे स एव उद्वायते विच्छिद्यरे वा सम्प्राञ्चमुद्धृत्य मनसोपतिष्ठेत मनो वै प्रजापतिः प्राजापत्यायज्ञः मनसैव यज्ञकम् सन्तनौते भोरित्याह भूतो मे प्रजापतिः भूतिमेवोपैदे इवा एकेन्द्रियेण वीर्येण यस्याहिताग्नेरज्ञपक्षायते यावत्सम्यजा प्रविध्येत् यावतपक्षायत्सम्भरेत् इदन्तरेकम् परपुतरेकम् प्रदीयेन ज्योतिजासम्पिषस्व संवेषणस्तनुपैतादिवानाम् ब्रह्मणैव तदप्रायश्चित्तिः यदि परस्तनामकक्षायेन अनुप्रजायावस्येन स्वो एव तदप्रायश्चित्तिः ओणधेर्वा येनस्य पशोन्मयः प्रविशति यस्य हविषे वत्सा अपाकृता जयन्ति ताने दुःख्यान् जातया नाम्ना हविषायजेत यज्ञद्यान् यज्ञपुरुरन्तर्यान् वायव्यायवाकोन्यर्मपेन् आयुर्वयपयसः प्रदापयिता हरे वा स्मैपयःप्रदापयते पयोवा वोढधयः पयपयः पयसैवास्मैपयोवरुन्धेत्र हस्मेहविषयत्सानपाकुर्यान् वैवतप्रायश्चित्तिः अन्यतरान्वा एष देवान्भागधेयेन अभ्यर्थयति येषणस्य सायम् गृहमागच्छन्ते यस्य सायम् शब्दम् हविरार्तिमार्चते इन्द्राय व्रीहेण्यृत्यापोषयन् अयोमापोषयः अयेवाभ्यहे त्वापोधने यत्प्रातः स्यात् तच्छ्रलम् इन्द्रिये <Sess> स्मै समेते वयोवा वोढयः पयः पयः पयोबन्धे अथोत्तरस्मेहविषयः सैव थी। जदः प्रायश्चित्तेः उभयानुवारेण देवान्पाकधेयेन व्यर्थेते येजमानस्य धायम् च प्रमातश्च गृहमागच्छन्ते यस्य अभयगम् हविरार्तिमार्चते अयेन्द्रम् पञ्चश रामोदनपेर दे। अग्निम् देवतानाम् प्रसम्यजेन् दे। अग्निमुखा एव देवताः प्रीणादि अग्निम् वाहन्वन्या देवताः इन्द्रमन्वन्याः का एवो भैल्यप्रीणादि पयो वावोषयः पयवयः पयशैवाग्नेपयावृन्धे अथोक्तरस्मेहविषयत्सा न वा कुर्यात् है हैवतरप्रायश्चित्तेः अर्थो वा एतस्य यज्ञस्य मीयते यस्य वर्णे अनुपत्यनालम् भृका भवति तामरुध्य विदेत सर्वेणैव यज्ञेन यजते तामिष्ट्वावक्वयेत अमोऽहमस्मि सा आत्माम् अधिगे त्वाम् साहान् तावेहितम्भवाहे पुंसे पुत्रा यगेत्तवै कार्यश्लोषाय प्रजास्तायसुवेयते अर्थयैवनावह्वयत् हैव तदप्रायश्च यद्विष्वन्नेन जि भुयात् अप्रजामधुर्यमानः स्यात् वितनायतनेन अनायतनः स्यात् राजावत्ययत्याावल्मेवनयेत् राजावत्यावै वेगः यज्ञप्रजाभजः प्रजापदा वेपयज्ञम् प्रतिष्ठापयति भोरित्याह भोतामे प्रजापतिः भोजिमेवपैजे तत्कृत्वा अन्याम् दुग्धापदलोहादव्यम् हैम तदप्रायश्चित्तिः यत्कीटापपन्नेन लिहुयान् अप्रजापसुर्यमानः स्यान् यतनायतने निनयेत् अनायतनः स्यान् मध्यमेन पर्येण द्यावापृशब्दान्तः द्यावापृथिव्यो रवेणत् प्रतिष्ठापयते तत्कृत्वा अन्याम् दग्धा पुनर्होदव्यम् ह तदप्रायश्चेण तु भूयात् अपरो स्यात्त्वम् जायेत यासोभा स्यादृशोभाः न प्रत्यजान् यज्ञम् विच्छात् सजुभूयात् मित्रोजनाम् कल्पय लजानन् मित्र कृष्णान सत्याय हम घृतव होते मित्रेनत् अन्या्धापुर प्राश्चि युतराहुतिकशुभ्यध्येदुराभियाशुभ्यध्येद यत्रमेच्छमनस्पते देवानाम् योक्या नामाने तत्र हव्यानिकामये निवानस्पत्ययच्चा रमिधमाधायेनैव मृत्युभूयात् अनस्पतिरेवैक्यस्यात्ताञ्चालाञ्चाहुदेविदाधार तत्कृत्वा अन्याम् दग्धापुनोहातव्यम् एव तदप्रायश्चेः यत्पुराप्रयादेभ्य प्रागङ्गास्कन्देहे अभ्रयवे यजमाना यजाग्रः स्यात् यद्दक्षिणा ब्रह्मणे यजमाना यजाग्रः स्यात् यत्प्रत्यगे होत्रे जपत्तेः सुनस्य बुद्धेनाय मातमोहायज्ञायते नमो यत्र निशेषुसे नमम् माहिन स्कन्देन तम्प्रहरेण शास्त्रलिङ्गाविः स्वामपृष्ठा कृतवान् सुप्रतीकः मानोन्मे पोषन्ना वेदपोषण् रक्षयते ब्रह्म दे। एव प्रायश्चित्तेः एष इन्द्रियेण वेद्येण यस्याहिताज्ञरज्ञमानानजायते यत्र अन्यम् पश्येत् तदासत्यहोतव्यम् अज्ञा वेदास्याज्ञहोत्तगम् हृतम् भवते यद्यनन्न इन्द्रेण अजायागम् होतव्यम् आग्ने वा एषा यदजा अग्नेव स्याज्ञहोत्तरम् हृदम् भवने अजस्वनाश्चीयान् एतदस्याश्चीयान् यामेवाज्ञा वाहुजम् विभयान् तामद्यान् तस्मादजस्य नाश्यम् यद्यजान्न हस्ते होतव्यम् एतवाग्निले स्वानः एब्राह्मणः अग्नेवस्याज्ञहोत्रगमुदम् भवते ब्राह्मणम् चपसत्तेनावरुन्ध्यान् एब्राह्णम् वसत्यावरुन्ध्यात् यस्मिन्नेवज्ञा वा पुलम् जभुयान् स्तम्भाघ्लेयेणेत् तस्माग्णोपसत्तेनावरुद्ध्यः एब्राह्मणन्न विन्देन् दर्भस्तम्बय होतव्यम् अग्निवानवेदभ्यस्तम्भः अज्ञानेवास्याज्ञकम् हुतम् भवते दर्भागस्तुलाध्यासेद यद्दर्भाणध्यासेदेवज्ञाबाहुदिन्द्युभूयात् तामध्यासेद तस्मादर्भानाध्यायितव्याः विदर्भान्नविन्दे अप्सहोदव्यम् आहोमे दर्वा देवदाः देवताः श्वेवास्याज्ञहोत्तकम् उतम् भवति आ वस्तु न परिरक्षेत यदावपरिचक्षेद यामेव स्वाहुतिम् चूयात् ताम् परिरक्षेद तस्मादाव न परिचक्ष्याः मेऽध्याने तस्यामेध्यायतनमोसकम् सृज्ये यस्याहिताज्ञेत्रम् सृज्यन्ते अग्नेष्टागवानन्देभ्याम् अग्रेष्टागवानन्देन प्रथम यज्ञस्वेणभागे व्रतमालम्भयदे तद्भगस्वन्तः अव्यजस्पष्टा बृहस्पतेः पृथिव्यामपष्टा ते च नाभिप्राप्नोः एतो वा एतद्वाजिनवाजिनाग्नेः तद्यत्सवेत् एतोश्रवेन दर्भग्रश्रवन्तमकमगरित्याः एतदेवस्मिन् वाजिनम् दधाते अग्नित्याः अग्निर्वेदधाः एतदेव तद्वधाति इन्द्रित्याह इन्द्रियमेवास्मिन् दधाते त्याहनाङ्गममेव पशुरसादे गृहस्पजरित्याह वेदेवनाम् गृहस्पदेः ब्रह्मणैवास्मैपजा पृथिव्यामोजश्चो दे, देशरित्याः अस्यामेवेन प्रतिष्ठा वेदे वे नाभिप्राप्नो जनिर्लिम्बराजेनित्याह रक्षतामहत्यै पुरस्ताः प्रस्रवन्ते उभयक्तात् सर्वतस्त्रियाः ताभिरमित्राभिः श्रद्धा यज्ञमारभे देवागागुमिदः कालम् यज्ञाय विन्ददा वनस्पतिना देवेण बाधाः यज्ञप्रेजनाम् श्रीयश्रेजिवः गायत्रियासवमाभुदः सोमपेक्षाय सन्नयनम् आपो देवे शुद्धास्तत्राणि चिन्धत संसदा अयोर्घेष्वयोत्रीपर्णवर्गेण पयस्वामङ्गृह्णामितमारोहनिषोर्यमह्नेः आहित्यञ्योतिषा जरुत्तमान् शोरिद्यायरुमलाम् देवताभ्यः वसोः दुर्गाणादित्यान् इन्द्रेण सह देवलाः आपरिगृह्णामि स्वायतमे मेखयाः इमामोचम् पञ्चदशे ये प्रविष्टाः तान् देवान् परिगृह्णामि पूर्वः अग्रयहव्यवहतो पोर्णमाधवम् भविदवेयि आमावास्त्यम् भवेदमे राम्मयि अन्तराज्ञे पदवः न् तान् पोर्वः परिगृह्णामि स्वाहायमेषपारमन्ताम् आज्ञेम् ग्रहवतिमदानाः ताः पोर्वः परिगृह्णामि स्वाहायमहे विश्वरोपारमन्दाम् आज्ञेङ्ग्रहवति न स्वायमेभव्याः कम् परिगृह्णामि अभिषन्नात्मितम् करदे अयस्कन्तांसभा बालाः विजयभागुंसविन्धतायमेभ्य अजैत्ये शरदश्रदम् अन्नमावधेयम् अभिरामशरदश्रतम् आवधे श्रियम् मन्त्रम्बुद्धयच्छत् इदमहाज्येष्ठेभ्यः असद्भ्यो यज्ञम् प्रब्रवीमे इदमहमिन्द्रज्येष्ठेभ्यः रुद्रेभ्य यज्ञम् प्रब्रवीमे इदमहम् वरुणज्येष्ठेभ्यः आदिष्टेभ्यो यज्ञम् प्रब्रवीमे वयस्पदे अयस्मद्भेताम्बयः अपाम्बयत्वयः एनमामिन्द्रकुंसः अग्नेयतपदे व्रतञ्जरिष्यामि अक्षरे यन्तन्मेलाभ्यृत्यष्यामि अक्षरे यन्तन्मेलाभ्यषमोऽमभितज्ञस्कृताम् बहुपन्नामचुष्काग्राम् हरामिश्वामहम् यत्कृष्णो लोकम् कर्ता कापिषस्तम् वनस्पदेन तस्वामेधा सम्भरामिषतम्भृता यज्ञायुणसञ्चलानम् सम्भरामिषतम्भृताः या जाता वोणदयः पर्वताभ्यासम् परिस्थलमाहरन् यज्ञेयम् शिवमस्तुमेवानि सर्वस्वतम् अपरिमितानाम् परिमिताः सन्नमुदायकम् हेणोऽ पुनरुद्धा पुनाभवन्तोदा छिन्नम् परेरोनाम् विदर्भ्यस्तावहाम्यहम् अस्मिन् सह कृपत्पदा यज्ञे पवित्रम् पौतमम् अयोहव्यङ्करोतुमेस्याङ्गानि सर्वशः आप्यायन्तौ सञ्चरताम् पवित्रेऽहम् यशोधने पवित्रे स्वा वैष्णवे पायुवाम् मनसा पुनादौ अयम् प्राणश्च बाणश्च यजमानपि गच्छताम् यज्ञेख्यभूताम् पवतारौ पवित्रेहव्यशोधने तया वेदम्ब्यृथिवे त्वया यज्ञोन्वेद्वान् अग्निमुपदेवदाम् अप्रसुतकुन्दयज्ञस्य मुखे उपदधाम्यहम् पदुभिः सन्नेतम् विभताम् इन्द्राय से उपवेशोदयज्ञाय ारयन् इन्दाय हि क्रन्वन्तः श्वः शब्मोपवादिनः अवन्वयन्नेव पात्रम् यज्ञस्यायुष प्रयुज्यता इतः पवित्रपदिनेताः आपोधारय मादियोः समित्राः सोऽव्यस्तरश्विभिः दोहपवित्रे रज्यम् सर्वाः पात्राणि संसदा एता आदरन्तिपसुमध्वानाः ः बह्जायमानाः इह वयन्दारमयदुगावः ऊषास्था अयक्ष्मावप्रजारम् ददामि आयशोषेण बहुला भवन्ति भोजम्पयः पिन्वमाना कृतम् च देवो देवम् देरुपसदेयम् यौष्टेमयम् यज्ञम् पृथगे सन्धुहाताम् धाता सोमेण सहवादेन वायुः यजमानाय त्रिविनन्दधातु उत्सन्तु हन्तिकलशङ्कदुर्विनम् इडाम् देवे मृधोदेकम् सपर्वितम् तदिन्द्राज्ञेयम् वदकम् सहतावत् तद्यजमानम् मृदप्रेदधातु कामसूक्ष्मप्रणाः इन्द्राय हवेन्द्रियाम् यस्याम् देवानाम् मनुष्याणाम् पयोहितम् मम दुग्धेन्द्राय देवेभ्यः हव्यमाप्यायधाम् वत्सेभ्य मनुष्येभ्यः पुनर्दोहाय कल्पदाम् यज्ञस्य सन्तजरधि यज्ञस्य त्वासन्तजिवसन्तमामे अधस्तमधिविष्णवे त्वा यज्ञायापि तथाम्यहम् अद्भिरिक्तेन पात्रेण या अयम् वयः स्वामम् कृत्वा स्वामियोगच्छत् कर्णवल्कः पवित्रम् सौम्यः सोमाभिनिर्मितः गणो वर्णम् च दर्भम् च देवानागुम्हव्यधनौ प्रागोपाय विष्णो हव्यगुम्भिरक्षति उपाभक् उपस्तृणते दे। देवता उपवसन्त मे अहम् राम्यामुपवसामि वाक्यङ्गोपदये पशूने देवादेवेमराम् अथवा द्वितीयेषु दुदी तृतीया तृतीयेषु हृदेकादशा इगमा इदगुण्ठने यज्ञविदम् करोमि आत्माकरोत्मनेः निरम् करिष्ये भेषजम् इदम् मे विश्वभेषापदम् इदमहुन्धनाय भेत्परिजये महलेन्द्रियाय आप्यायता हृदयोः अज्ञरहव्यानमन्यदा क्षमम् क्षप्तजमङ्कम् दाय सुविदम् तेजसा अग्नयष्टमभिहारयामि शोणम् ते शोनम् करोमि कल्पयामि तस्मिन् प्रतिष्ठा हरेणाम्नः आदरप्रदशर्भुवनस्य गोपाः सुत उत्साहजनितामतीनाम् व्यस्तः प्रवेष्टः केलानाम् मिष्ठामनिरस्थ आत्मन्तान् स्वपूत्वा देवाङ्गच्छ सुन्द्यम्प्रेर्पितलो देवाः यस्याः मन्त्रे मे संहस्वम् दत्तम् श्रान्तम् कश्च मे निरुपद्द्रष्टा श्रोता आदित्यो विख्याता प्रजापनिर्बन्ध्यंशिषम् माधेकामक्रमे भरतमुयमरुणि अपदानानि च प्रत्यपदास्यामि नमस्ते यदोदानादेवनः आज्यप्रत्यम् पुनः व्याधाकृत्यतामिदम् मारोनुवामयज्ञस्य शुद्धमिदगो हवे मरुणादृष्टाम् घटवये मित्रावरुणसमेताम् दक्षिणार्थान् सम्भिन्नन् अपत्याम् मे गतोमुखाम् जटस्वनः तस्यात्मेव नरतमिन्वस्वाक्षाये मेवापतिरथे जे कल्पन्ताम् कल्पन्ताम् मे दशः दैवेश्च मानुषेश्चे कल्पेदा अर्धमासा मे कल्पन्ताम् माता मे कल्पन्ताम् प्रतमो मे कल्पन्ताम् संवत्सरो मे कल्पदाम् वृत्तिरजकल्पदाम् मे आशाणान्दाशापालेभ्यः अमृतयेभ्यः इदम् भोजस्याध्यक्षेभ्यः इदमाविदा भजामः तस्मिन् वा ब्राह्मणास्ते समन्ताम् अविनागतेन समादितेः विश्वेभिर्देवेऽभिरन्ताम् वा रक्षते स्वाहा वाहूयातम् अतिशिरवसुपुत्रा हस्थोरित्राकारिभवत्या उपनिषे सुप्रजाहस्ताय सम्पत्तेवत्या सुपुतेन गच्छताम् यज्ञस्य युक्तौ धर्याभूताम् सन्ध्याना विजहरामरादेः निवेद्योतिरनिरमाणभेदाम् विषये तनवयज्ञयज्ञाः ताः प्रीणादविदमानाभुतेन नारिष्टयाः प्रजरमेणमानः कृतो एतद्भान्तेन प्रीणानि एतदृप्तमगुम्भौ अहम् देवानागुं सुकृदामस्मि लोकेभवाजे अहम् नष्टामुलेजामि विद्वान् यदाभ्यामिन्द्रोधायम् प्राणाय सुदासने सुभगाः निष्कायिमे यजमानस्य बध्ने परिष्कृने परिसत्ताज्ञे परिवाज्ञोषेनागम् सुवर्णः निष्कायिमे यजमानस्य सन्तकामधुधानाः अमुद्राविष्णुम् लोके भोपदे भुवनपदे महतो भूतस्य पदे ब्रह्मानन्तावृणेमहे अहम् भोपति राहम् भुवनपदे अहम् महतो भूतस्य पदेज्यम् करिष्यामि एव च वितरे तन्तावृणते पुरःपचिन्तेऽप्यम् ब्रह्माणम् राम् मनसे ब्रवीमि मनोगायत्र्यै गायत्रे सुष्टुभे ष्टुभ्यगत्यै जगत्यनष्टुभे अनष्टुः पङ्क्ते पङ्क्त्यप्रजापतये प्रजापतिर्विश्वेभ्यो देवेभ्यः विश्वे देव बृहस्पदये रहस्पदर्ब्रह्मणे ब्रह्मभवद्भवस्वः प्रजःपतिर्देवानाम् ब्रह्मा अहम् मनुष्यानाम् बृहस्पते यज्ञङ्गोपाय स्ते अन्तर्दौतस्तर्निवानुषेषु चतुःश्रण्डायशाः दौभकाय मह्यम् सुक्ष्मयजमाना निजामान भोक्तायमानम् बमोष ततो देवे मध्ये देवया गुङ्घे यज्ञिना यज्ञम् विजयम् दिशम् चोटधेरापरेश्च स्ते सास्तेजमानामहे सौभगाय शिवाजमे श्रोनाजमेषमोर्जम् मे बिन्वस्व ब्रह्मदेजो मे बिन्वस्व क्षत्रमोजो मे विन्वस्व इषम् पुष्टिम् मे बिन्वस्व आजनाद्यम् मे बिन्वस्व प्रजाम् पशोन्मे बिन्वस्व अस्मिन् यज्ञमुखो यन् अपेक्षोभायवर्धे दधा मे धर्ताधरणोधरीयान् अव्यद्वै नागम् यदितोनुते विच्छिन्नम् सपत्नान् जातान् भागव्यानश्यमानाः विशोयन्त्राभ्यास्वानामुक्तबोधानि देवाः शिशोयन्त्रेण विदमाने अराजम् विश्वम्बरान्दुर्म सीदन्ते देवेषु कृतस्य लोके श्रुते स्पृते प्राणान्वयि धारेणयि धारेणम् पशोन्वयि धारेण अयम्रत्र उभयस्य धर्ताः धर्ता प्रयाजानाजानाः पृशवस्वरूपाःयामि आरोह पथवजुगृदयजानान् यत्रजाय पुराणाः हिरण्यपक्षा युलासम्भृताङ्गा महाजमा सुकृतान्यत्र लोकाः अवाहम्बादौ सुपत्नान्नाः लोहे यज्ञकम् सुदुखानिबधेन अहमुत्तरा भोयासम् अथे मत्सपत्नाः अहमुत्तराभूयासम् अधरेनाक्वः सोनः पृथिव्याम् पृथिव्यामन्तरिक्षे अहमुत्तरा भो यासम् अधरे मत्सपत्नाः यज्ञस्थाने जलश्च भोर्णा अत्यन्नवया सदशात्सः मामदे यज्ञोनिधर्मदर्श्रुतः सर्वदाम् भवनम् भविष्यश्रयताम् स्वदम् वेषन्ता सहस्रम् वेषन्तसोमृताः विरामदेः पशुमदेः सर्वदाम् भवनम् भविष्यच्छ्रयताम् मेषन्ताजुदः सहस्रम् वेषन्त सोमृताः विरामदेः पशुमदेवः इदमिञ्जयम् वेयम् विष्टम् येनादिशुक्रम् मधुभागिने पदेष्टार्थेन्द्रम् पथिवान् अयम् वेद पृथिवीमन्द्रविन्दे समिन्द्र यजमानाय लोकम् अच्छद्रै यज्ञम् भोरिकम् मा करोतु अयज्ञस्तमविष्मान् विथायुताभिन् इन्द्रस्य लक्ष्यमुदत्तप्यान् लक्ष्मणेनादे अस्मिन् यज्ञे यजमानायम् अहम् प्रजाम् देवय अग्ने वाजन्तादर्ष्यन्तम् वाजन्धरिष्यन्तम् वाजनम् वाजदिनम् वाजत्यायम् अर्निमन्नादमन्नाद्यायताक्वयतार्निराग्ने जीवात्मै पुण्याय बहोदा पृथिवे माता पुमाम् माता पृथिवेऽक्वयदा अग्निस्तवायजमादयन्ताम् यन्ते अज्ञा पृष्ठामि अहम्बाक्षिमितश्चरन् प्रजान्तरस्रमूलम् च नीचे वा निवश्च समानो यश्च नित्यः विद्धस्येव प्रक्षालितः किञ्चाहन्े स्मिष्टवान् सर्वाकृष्टा ने सन्तः यागश्चाहन्दे स्मिवागुंसम् राजनम् वाजयितम् वाजनित्याहाग्ने अग्निमन्नाथमन्नाद्याय आज्ञाज्ञाश्चमुषत्काराः संवेसन्नतयो न मन्ता यद्भसन्नहनेभृते विपक्षीलोपदः पृथिव्याध्युत्थितः तेन दहस्रकाण्डेन द्विषन्तगुंसोजयामु द्विषन्मे वसोजनो वोषधे मोहगुंसजम् यज्ञनमस्ते यज्ञ नमो नमस्त्यते यज्ञ शिवेन मे सन्तिष्ठस्व शोणेन मे सन्तिष्ठस्व भूतेन मे सन्तिष्ठस्व ब्रह्मवर्ततेन मे सन्तिष्ठस्व यज्ञस्य आवस्तत्रवहदादिनः उडूखले मुसले आशुश्रेषदृषः कपालय कपाले विप्रभः संयुगामि विश्वे देवान् विलन्ता यज्ञेया विप्रषः सन्ति पद्मेः अर्णोधाः सर्वाः स्विष्टाः सुहृदाजो मे उद्यन्नत्यमः समत्ना सह दीर्घायत्तस्य हेषे कस्य नादे उद्यम्यद्यमित्रमः आरोहन्मुत्तरान्दिमम् हृद्रोगम् मम सौर्य हरिमाणम् च नादय श्रुतेषु मे हरिमाणम् रोपनाकाशध्वजे अरोहायद्रवेषु मे हरिमाणम् विरध्वजे उजगालयमानित्यः विश्वेन निगदानः तम् मम रञ्जयन् मो अहम् विदतारथम् यो न शपादः कश्चन शपदः शपाम् पापम् समूहताम् कर्त्राभिसिदेवाः विद्मस्तेव प्रक्षालितः पादश्चोच्छेदकिञ्चन अवशिष्टः फलापदा ब्रह्मनिषदः गच्छामित्रान् पविषा महिषान् कञ्चनोक्षिषः सक्षेदम् पश्य विधत्तरिदम् पश्य नाखेदम् पश्यमज्वनिष्ठा रथम् वरिष्ठम् अमुदायाहुः सौर्यो वरिष्ठाक्षिभाे अनुद्यावान्त्रे दीक्षादितमसवर्योलिः तमोदिर्ब्रह्मणवयोनिः ब्रह्मादिक्षत्रस्य योनिः क्षतमस्क्रदस्य योनिः तमसि भोरारभे श्रद्धाम् वनसा दीक्षान्तमसः विश्वस्य भुवनस्याधिपत्ने सर्वे कामायमानस्य सन्तो बालम् प्राणम् गोपाः समावृत्यास्त्रायधाम् पात्रेमायमहे इन्द्रधा अक्वजगायत्रे प्रमद्य कान्ते इन्द्रधा अक्वृष्णम् प्रपद्य कान्तेन इन्द्रधाक्वजगते प्रमद्य कान्तेन इन्दुशाक्वल विष्णुभम् रवध्ये तान्ते विलज्मे इन्दुसाक्वलपन्त्यम् रवद्ये तान्ते आनन्देक्षामहमीयत्रेण सन्दधा ब्रह्मणायम् सत्येधायि सत्यमृतेधायिमे सत्यम् च भूताम् सुवरगमम् सुवर्गम् लोकन्नागस्य पृष्ठम् क्षा रयाप्रेक्षयापेक्षितः रयाज्ञेक्षया देक्षितः रजा कालेक्षया देक्षयामि अन्धविक्षन्धेक्षः प्रयावायुपेक्षया लेक्षितः रयावायुर्भेक्षया लेक्षितः रयापापेक्षया लेक्षयामि यावर्भेक्षः रयापेक्षया जेक्षितः रयादेक्षया लेक्षितः रयाः त्वा देक्षया देक्षयामि दिशोक्षा रया चन्द्रमा देक्षया देक्षिदः दया चन्द्रमादक्षया येक्षिदः रयाः त्वा देक्षया रेक्षयामि आवोधेक्षा तया वर्णोराजा राजा देक्षितः रया वर्णो राजाधेक्षया देक्षितः रयाः त्वा देक्षया देक्षयामि ओषधयो देक्षा तया राजा देक्षया देक्षितः यया देक्षया देक्षितः रया त्वादेक्षया देक्षयामिदक्षया देक्षितः रया प्राणोदेवया देक्षितः रया त्वा देक्षया देक्षयामि गिरेक्षमान अनुजेक्षरा अन्तरिक्षन्तारेक्षमाणमृजेक्षरा यौ स्वादेक्षमाण अमुदा विशस्तारेक्षमाणमरेक्षन्तास्तारेक्षमाणमरेक्षन्तारेक्षमाणमरेक्षन्ता वाक्त्वारेक्षमाणमरेक्षता विजस्तारेक्षमाणमरेक्षन्ता सामानिक्षमाणमरेक्षन्ता विजयपुंशत्त्वारेक्षमाणमरेक्षन्ता श्च आपश्चौषधयश्च ऊर्जसौन्द्रेक्षमानमीक्षन्तासेन सो न महाभिषेवः शिवो वा शिवमामि सत्यम् महात्मा श्रद्धा मेक्षुतेः सत्यमस्मे, स्मि अहम् आयुपाल सुप्रदेकप्रस्तात् सहस्य अभ्युत्तरस्मिन् विश्वे एकविषयविष्टस्तान् वेदो द्वयोर्जयविष्टस्तान् वेद त्रीणि वृदाय विष्टस्तान् वेदो चत्वारि माय भवाय विष्टस्तान् वेदो पञ्चपशुभ्यो विष्टस्तान् वेदो षड् प्रायस्तोषाय विष्टस्तान् वेदो सप्तसप्तभ्यो होत्राभ्यो विष्टस्तान् वेदो सखायन् साधुसुब्रह्मण्ये तस्याः ते पृथ्वे पादः साधुसुब्रह्मण्ये अस्याः ते अन्तरिक्षम् पादः साधुब्रह्मण्ये तस्याः ते द्यौपादः साधुब्रह्मण्ये तस्यास्तेषःपादः पञ्चमःपादः सारषमोर्जन्ध्वाद्यम् स्वामद क्षेमस्तु न्यवदे पस्मन्निवः नाभापृथिव्याः यथा देवस्सुः समे त्रिदस्य खण्डानुपतिः सुपेशाः घृढप्रेयाघुवश्च मध्ये तस्याम् च वर्णा निविष्टौ ययोवानामधेक्रा तत्रिनः अग्ने वेष्माः यस्मानाभयम् गृहे प्रजाभ्यः सर्वाभ्योमो रुद्रान्यः सर्वाभ्योम् रुद्राजमेषुडेश्वः मे मयज्ञेयमानन्तरेण स्वर्गे लोगेविधेः ष्पदे यस्मायुष्ठा समो नायम् कृषे प्रजाभ्यः सर्वाः ब्राह्मण नमो रुद्रागमे तस्मै नमः तस्मै स्वाहा न वायते आशानाम् विश्वासा यज्ञो इन्द्रा हुता हुदस्य दर्प्यम् अहुदस्य हुदस्य च हुरस्य च हुदस्य च अहुदस्य हुदस्य च इन्द्राग्निमस्य वेदम् विपदम् प्रजाः मायस्वाममिमम् विवादे प्रेषिता उपा वायुष्टे अस्त्वकंशभोः मित्रस्ते अष्टकंशभोः वरुणस्ते अष्टकं शभोः अवाहायारजस्य गर्भाः भुणस्य गोपाशेन अतिथयः पर्वदानाम् गुहप्रगितोऽनपादारः अग्णेन्द्रज्ञह्वयत घोषेणामीवागश्चादयत युक्तास्थवहर गावाणयुन्द्ररिन्द्रयुत्यवादुषुः ऐन्द्रमदिच्छवः परमस्या परावतः आस्मात्सुधस्ताद् ओरोरन्तरिक्षाद् आदुभोधमधुरवः ब्रह्मवर्धकम् आदुरवः समरेरक्षागस्य मधिजोः अपहरम् ब्रह्मज्ञस्य वाच्य प्रामनश्च श्रेणीताम् बाणश्चत्वापानश्च श्रेणीताम् दक्षश्चत्वा श्रोत्रम् च श्रेणीताम् दक्षश्चत्वाबलम् च श्रेणीताम् ओजश्चत्वासमश्च श्रेणीताम् आयश्चता जराजश्रेणीताम् आत्मा जनोश्च श्रेणीताम् श्रुतोऽसि श्रतम् कृतः श्रुता जनेभ्यमिन्द्रमाहोर्वमाहोः यत्रमाहुल्यमसत्यमाहुः यो देवानाम् देवतमस्तपोजाः तस्मै ये त्वा महदे मयि तक्षो मयिक्रतुः मयि धायि सुवीर्यम् पृषग्धर्माविभागमे आगोदा मनसासः यज्ञेन पयसासः तस्य दोहमधेमहे तस्य सुम्नमशेमहे तस्य भक्षमजेमहे वाग्ना सोमसृप्यदो मित्रो जनान् पृथमित्रपरो अन्यो अस्ति या विमेषभवनानि विश्वा प्रजापयः प्रदजासंविधानः ते निद्योते एष ब्रह्माजलत्रिकः इन्द्रो नाम श्रुतो घने प्रतेमहे विध्वेषु न्वे वर्षो हर्यदम् मदम् इन्द्रो नामभिरण्णयः हरिभिश्चादिषे श्रोगणः विशन्तो हरिवर्पदेङ्गिरः इन्द्राधिपदेधिपतिस्तम् देवानामदि अधिपतिम् महान् आयुष्पन्दम् वर्तस्पन्दम् मनुष्येषु गुरु इन्द्रस्य सम्रारुणश्च राजा भक्षम् योर्णभक्षम् भक्षयामि वाग्धाना सोमस्य लोप्यतो रमदर्विश्वकर्मा तस्य मनो एवम् विज्ञेन्दराध्यासम् अर्थैकः श्रीभिदः अवसानपदे अवसानम् मे विन्द नमो रुद्रागवास्पोष्पदये आयने विद्रवणे उद्याने यत्परायने यान्यवामित्रान्यप्रलीत्तान्यस्मि हमश्च या बलिनाचरामि ह्यैव सन्द्रद्यादयामः नैवायैवेभ्यो निहरामयेन अनर्नास्मिन्नः परस्मिन् प्रतीये लोके अन्यास्याम ये देवयाणाः सर्वान् पथो नृणाः क्षीयेम योलुश्रेजो सा न जस्पदे श्रिवेरा वीरेऽर्णसञ्चरे वा अर्कः पवित्रकौरजसाभिमानः पुनाजिदेवानाम् भुवनान् विश्वाः या वापृथिवी मयसा संविधाने घृतम् दुहाते अमृतम् प्रवीणे पवित्रमर्को रजसाभिमानः पुनाजिदेवानाम् भुवनान् विश्वाः र्य महरे अशीमहि काशमुदप्रतिष्ठाम् पुरस्ताम् सेत् स पिता मित्रोर्यमा सर्वानमित्रान् वधेद्विगेन निरन्दम् वामकरद्वीरवन्दम् रथम् हरेश्वयस्व स्वाहा दृव्याम् वामदेव्येश्वयस्वस्वाहान्तरिक्षे बृहदिश्रयस्व स्वाहा दिवे आत्त्वा तदेवीर्याय च अस्मास्वर्भ्य यूयम् तथा चेन्द्रियम् वयः यस्ते दत्सो यस्तपुदर्भः देव्यः केतुर्विश्वम्भुवनमा विवेश अनत्पाके स्वाहा अनुमादर्वो यज्ञो यमेतो विश्वे देवामरुदः समार्गः आत्म्यच्छन्दागुंसि निमितो यजो गृह्णे अस्यै पृथिवै यज्ञम् प्रजापतेर्वर्तनिमनुवर्तस्व अनुवेदैर्विध्यामगोभिः अन्वस्पैर्णसर्वैर्पुष्टेः अनुप्रजयान्विन्द्रियेण देवानो यज्ञमनुषुधायन्तु प्रतिक्षत्रे प्रतिनिष्ठामि राष्ट्रे प्रत्यष्वेषु प्रतिनिष्ठामिगोषु प्रतिप्रजायाम् प्रतिनिष्ठामि भव्ये विश्वमन्याभिमावृधे तदन्यस्यामधिः सृतम् निवेदविश्वकर्मणे झ्वेजागमनवः अस्कान्त्य पृथिवे अस्कानविभायभागाः स्कन्नेमाविश्वाभुवना स्कन्नायज्ञः प्रजनयतो अस्कानजनिप्राजने आस्कन्नाध्यायदेशाः स्कन्ना प्रदशीमहि हे देवा येषाम् इदम्भागधेयम् बभूव एषाम् प्रयानु याजाः इन्द्रज्येष्ठेभ्यो वरुणराजभ्यः अग्निहोदृभ्यो देवेभ्यस्पाःत्या नो दिवामते सदिरोत्यागमते सा सुन्तामयस्करते अपसृधः उदत्या देव्याभिषजा षण्णस्करतो अश्विना यूयाजामस्तद्रवः अपसृधः समज्ञाज्ञभिस्करदे शन्नस्तमदौर्यः संवातो अपस्तुतः हरित्पदन्न विजयेत विद्वान् यन्मृतः पुनरप्येतु जैवान् प्रभजद्भुवनः सरसमृ देवागर्भामृदस्य जीवान् तर्प्यस्मै पिपीठे विश्वान् विजतेभर आरङ्गमानि जग्मवे अपश्चाद् जघ्मनेरे किन्तु किन्तु अरिन्द्वान् तस्य दैन्दवीन्द्रवेदस्य मधुमदः उपहोदस्यापहोदो भक्षयामि ब्रह्मप्रतिष्ठामनुब्रह्मवाजः ब्रह्मयज्ञानागम्भविडामायस्य कर्मणो यज्ञः पर्वाणि प्रतिरन् कल्पयन् स्वाहा कृताहुजलु देवान्त्याश्राविदम् अत्यलोक्तम् च यज्ञे अदिक्तम् कर्मणो नित्यहीनम् यज्ञः पर्वाणिप्रतिरन्ने निपयन्ने स्वाहा कृताहुजरेति देवान् यज्ञो देवादिपादयानि वाचाल्येदन्दे वहेडनम् अरायो अस्माकमभिषित्सुनागदे अन्यत्रास्पन्मरुदस्तन्निधेतनम् महावस्तुदागिते पुनः स्वायुष्टाभिषस्यते अयमुदमग्रपदविष्णभेडुजः स्वाहागृहस्य समुदर्प्णरद्भवः उद्गणम् तमसत्परित्यञ्जित्राम् इमम् मे वरुणदत्त्वायामि त्वन्नो अज्ञे षत्वन्नो अग्ने त्वमग्ने अयाधिप्रजापदे इमम् जीवेद्भ्यः प्रतिदसामि मयिषान्वकालमनोर्धमेदम् शरञ्जीवम् शरदत्वरोचेः शिरो मृत्यम् दशताम् पर्वतेन इष्टेद्भ्यस्ताः वर्षणमिष्टेद्भ्यस्ताः न्द्रे स्वाहच्छे स्वाहा दौराध्ये स्वाह देवेभ्यःभ्यः स्वाहा स्वाह समृद्धे स्वाहान्द्रभयामहे ततो नाभयम् विधे मठवृतवृदन्न उदये व्यग्ता मृदालिः सस्विताभितरिः वृद्धः मृदाभिहि कृषेन्द्रपुरनेतुः आभिर्ग्येऽर्भिर्य नवन आत्याहरियो वर्धमानः यदा भूयिष्टभागो श्याम अनाज्ञानम् यज्ञस्य क्रियते मिथो अग्नेतस्य कल्पया ऋगोभिवेषसंविदो यज्ञः यज्ञः पुरुषसंविदः अग्नेतस्य कल्पया अगमव्यकथा तथम् यद्वात्रा दीनदक्षाणा मन यज्ञस्य मन्मदेमर्ता अग्निष्ठद्भोदाकृतमित्विजानन् यतिष्ठो देवागमृतजो यजादि यद्देवादेवहेडनम् देवादश्च देवा देवा क्रमा वयम् आदित्यास्तस्पान्मामुञ्चत ऋतः सर्गे न वा मुदा देवादेवनकाम्यायत् वाचानुतमो अज्ञर्मादस्मादेन सह कारिकवत्यः प्रपञ्चदुर्गायानि करोदेन सम्पाषवेदमायमासांसांसायसः अनाज्ञातम् देवगत तस्मात्तमस्ताञ्जातवेदो मध्ये यद्वाजायम् मनसा बाहुभ्यामोरुभ्यामष्ठीमद्भ्या शिष्णेर्गदसञ्जलमा वयम् अग्निमादस्पादेन सह यद्धस्ताभ्याम् चक्रकल्भिषानि अक्षाणाम् अग्नमुपलिभ्यमानः दूरे पश्यादिराक्षान्यक्षरसामृतत्तावृणानि अतीव्यम् नृङ्गकार यद्वादा स्यान्तरेभ्यः अग्र्यर्मादस्मारेण सह यन्मयि मादागर्भे सति येन चकारयत्पिता अज्ञर्मादस्मारेण सह यदा विपेशमाधरम् पितरम् पुत्रः प्रपचलोधयन् हैकंसितो पिटलोमयादरे अनुलोभवामि यदन्तरज्ञम् पृथिवे मुद्याम् यन्मातरम् पितरम् वा यैसि वा अग्निर्मादस्पादेन सहसानुशसायत्पराशसाणत्रमानूतनयत्पुराणम् अग्निर्मादस्पादे सह अतिक्रामामिति ऋतञ्जयतेनः अहामिप्रम्बरमे सुधस्थे यत्रयन्ति सुकृतोनामि दुष्कृतः कमारोहामि सुकृतान्नलोकम् हृदयदेवामृजैकृतेन दे दे हृदयजन्मनुष्येषु मामृजे ततो माषि किञ्चिदानसे अग्निर्मादस्पादेन सह नारिखवत्यः प्रपञ्चलो धुजरायाणजक्रमा रवामनेन सम् जाता अप्सुजाताः जाता, जाता वोधेभ्यः अथो या अग्निजा आपः आनः शुन्धन्तु शुन्धनीः यदा वोलक्कम् तु विचञ्चलाम यद्वादिमानूतनैयत्पुराणम् त्वन्ना अग्ने तत्पन्नाग्ने त्वमग्ने अजाधि यत्ते अग्रावन्नादिच्छित्सोमराजन्तापरोगं हे तत्सन्स्वाग्नेयस्व अनागमोधमित्सङ्क्षयेम यत्ते अग्रा वा बाहुच्युतोदक्षिणेन तत्ताप्यायदान्त्यायदान्दे मोम यत्रे त्वदम् विभृलेच्छयोनिम् यदा स्थानाकृच्छुतो सित्पलाः तगात्स्वामगुप्तमस्तु नः स्थानः सन्धासत्परमे व्योमन् अहा शरीरम् पयसा समेत्य अन्योन्य भव जिवर्णोऽस्य तस्मिन्वयमुपभूतास्तव स्मः विश्वरूपे निरक्षाः स्वाममुदश्रुहस्तु तानुविहासे गिरावृणानः अनागास्तु नवो वानः आनोरोपम् बहुवर्धयन्तेः देशो च उपमहाराजे श्रोत्रेण गच्छस्व सोमराजन् यथा दत्ते अस्तु जानीतान्नः सङ्गमनेपथीनाम् एतम् जानीतात्परमे व्योमन् मृगास्वशस्थापितरूपमस्य यदा गच्छाभिगानैः इष्टापूर्ते कृणुता जाभिरस्मै हरिष्ठो राजन्न गजः परेः नमस्ते चक्षुते रघूयते नागमादोः समेयमानेन ना। सूर्यम् गच्छतात्परमे व्योमन् अभो देवः सविदावन्द्यो नृणः इदानीमन्धौपवाच्यो नृभिः विजोरत्नाभजनिमा नवेभ्यः श्रेष्ठम् नो अत्र द्रविनम् यथा दशदे विहावदम् अन्वादेध्यासाम् विहनः सखाया आदित्यानाम् प्रसितरिहेतिः उग्रासुता पाष्ठा सविषा परिणामिक्तो यद्यदेक्षे मनसायच्छद्वा प्राणैश्चक्षुरायच्छ्रोत्वेन निर्देतसामिनाप्यात्मना अर्भ्यो लोकार्थिरेद इन्द्रियम् शुक्रादीक्षा एतपुचाविमोचनेः आपविभोक्तेर्म युतेद इन्द्रियम् यदृजासाम् दायिदुषा भजूनाञ्चर्मण हविषादिदीक्षे यच्छन्दो भयोषे धर्मनःपदो अध्यो नकारियम् शुक्रादेक्षादेतपदा विमोचनेः आवविमोक्षैर्मन्द्रियम् येन ब्रह्मणेन क्षत्रम् येन प्रजापतिः स्वमा वरुणो येन राजाः स्वेदेवन प्राणाः अध्योनोकालसरे तेजेन्द्रियम् शुक्रादेक्षायै तदा विमोचनेः ेर्मैलेन्द्रियाम् दे अवाम् वृष्टमस्योणधेनागुमृदः सोमस्य प्रियम् धाम अग्ने प्रियतमगम् अविस्वाहा अवामृष्टमस्योणधेनागमृदः सोमस्य प्रियम् धाम इन्द्रस्य प्रियतमगम् अविस्वाहा अवामृष्टमस्योणधीनागमृदः सोमस्य प्रियन्धाम विश्वेषाम् देवानाम् प्रियतमगम् अविस्वाहा अयकम् सामप्रदेतव मनः मनोटभिप्रदः प्रजा धीमहि देवेभ्यः प्रतिर्भ्यस्वाहा सौम्येभ्यः प्रजर्भ्यस्वाहा कव्येभ्यः प्रजर्भ्यस्वाहा देवादिगमादयध्वम् सौम्यादिरिगमादयध्वम् कव्यादिरिगमादयध्वम् अनन्तरिताः पितरः सोम्याः स्वामपैषायरमदन्नागन्ने नाभयम् पर्णम् व नस्पतेरिव अभिनश्ये यदागमरैः शरदान्नश्ये पतिः परम् वृत्यानुपदे विबन्धाः यस्तेऽस्मै देवयानान् चक्षुष्पदेशे दे ब्रवीमि दे मानःप्रजागौरीषो बोदवीरान्श्रेयो नमागन्वानजिनस्पजिद्यते पर्णम् व नस्पतेरिव अविणश्री यदा मलिः स च नाश्चेपतिः